द्भ्यस्ताम् विद्वेन माभ्यन्दिने सवने वृत्रमहनयन् माभ्यन्दिने समने मरुत्वदीयाघृह्यन् देवात्रघ्ना देव ते यजमानस्य गृह्यन् दे तस्य वृत्रम् जघृगर्म सर्वेण मरुत्वदीया न गृह्णात्ततो वै सर्दोन् प्राजानागुर्वाक्रेण मरुत्वदीया गृह्यन्तरे ज्ञा देवज्रम्भा एतव्यजमाना भ्रातु्याय प्रहरति यन्मरुत्वदी या उदेव प्रथमेन गच्छति प्रहरति द्वितीयेन स्मृतिते तृतीयेनायुधं मा एतद्यजमानसुरुते यन्मरुत्वदी या धनुरेव प्रथमा ज्या द्वितीयजस्कृति यत्रत्येव प्रथमेण धत्ते विसृजति द्वितीयेण विध्यति ेन्द्रो वृत्रगो हत्वा परां परापदमगच्छदपाराधमिति मन्यमानः सहरितो भवत्सगेता मरुत्वदीजानात्मस्मरणानपश्यक्तान् गृह्णेन प्राणमेव प्रथमेना कृणुतापानन् वितीयेनात्मानन् तृतीयेनात्मस्मरणावायेते विद्यमानस्य गृह्यन्ते यन्मरुत्वदीया प्राणमेव प्रथमेन स्पृणुते पाणन् द्वितीयेनात्मानं तृतीयेन्द्र वृत्रमहन्तं देवा अब्रुवन् महानुवा अयमभोज्यो वृत्रमवधीयजितन्महेन्द्रस्य महेन्द्रत्वगौ सहेषं माहेन्द्रमुद्धारमुदहरत वृत्रगौ मत्वान्यासु शुक्रभात्रेण गृह्णादि यजमानदेवत्यो वि माहेन्द्रो तेन शुक्रोऽयं माहेन्द्रम् शुक्रभात्रेण गृह्णादि यजमानगेव ते ज्यो दधारी अदज पुत्रकामाद्भ्यो देवेभ्य ब्रह्मौ धनमवधत्तस्या उच्छेरणमलदुस्तम् प्राष्टात् सारेतो धत्त तस्य चत्वारः नित्या अजायन्तधामवधत्सामन्यतोच्छेदणान्महिलग्रे प्राजिष्यामेतो मे वसि जातुम् सो जनिष्यन्तग्रे प्राष्टा ेतो धत्त तस्येव्यर्थमान् न जायत सात्यम् जे पततिरमवजत् भोगायुजग्यश्रान्तमस्ति बृहन्वनम् वृणामहेयोतो जायाता अस्माकम् गगेतो सद्योऽस्य प्रजाया मृद्धाता अस्माकम् भोगाय भवाति ततो विभस्मा नित्यो जायत प्रजायन् मनुष्या योजतेथ देवानां भोगाय भवति देवाविज्ञाद्भुद्रमन्तराय सादित्यान्वाक्रमगे त्रिदेवत्यान् प्रावध्यन् यतान्न प्रति प्रायच्छन्तस्मादपिवध्यं प्रपन्न प्रति प्रयच्छन्ति तस्माद्विदेवत्वेभ्यादित्यो निर्गच्छेक्षादजायन्त ृष्ट्यते माता पिता पुत्रस्तदेवदम् मिथुनमुर्गम् गर्भोजरायुतदेवतम् मिथुनम् पशवो वा एते यदादित्यवोर्धधि दद्धा मध्यतश्रीणात्योर्ध्व पशूनाम् मध्यदो दधादिशता संक्येन मेभ्यत्वाय तस्मादा वा पक्वन्धु हे वै पशोन् गृह्णादिपशवो वा एते यदादित्ययेतरुद्रोः परिश्रज्य गृह्णादि रुद्रादेव पशोनन्तर्गथावस्वानादित्यो यदि पाकं सुसवनस्स एतमेव सोमपीठम् परिचय आतृतीयवनाग् स्वादित्येशते सोमपीठ इत्याहमिवस्पन्तमेवादित्यगुं सोमपीठेन समर्थयतियादिव्या श्रेणामेति वृष्टिकामस्य श्रेणीया दृष्टिमेवावरुन्धे यदि ताजप्रस्कन्दर्षुकः पर्जन्यस्या निर्चिरमवर्षोपसादगत्य सन्नाध्य प्रजा प्रजायन्ते नानुभक्करागदन्या रुद्रम् प्रजान्भवदन्न भुक्त्वान्वे क्षेतयदन् वे क्षेतचक्षुरस्य प्रमायुगात्तस्मान्नान्वीक्ष्यः अन्तर्यामपात्रेण सावित्रमा क्रीणा गृह्णादि प्रजाप सर्वा एणयदा क्रेण प्रजानाम् प्रचरणायनसाधनत्यसन्नाद्य प्रजा प्रजायन्ते नवषक्वरोधी नवषक्कुरुषा रुद्रम् प्रजा अन्वसृजय देशवे गायत्र देवानां यत्सवितेडग गायत्र ये लोके कृत्यन्तर्यमपात्रेण विक्रमाग्रेणा गृह्णादिष्व देवैनैह्णाति विश्वे देवास्तृतीयगुं सवन नोदयच्छन्ते प्रादसवनपादकुं सन्तं तृतीयधवनमभिवर्यनयन्ततो वेदे सवनमुदयच्छनयत्तृतीयसवनेधा वित्र गृह्यते तृतीयस्य लवनस्याद्यत्वेधपितृपात्रेण वैश्वर्येवं करभागृह्णादि वैश्वरेव्य जो भगी प्रजा वै स्वदेवः कलशः सविता प्रसवानामीशेत् समितपात्रेण वै स्वदेवं कलशा गृह्णाति प्रजा प्रजले गृह्णातिरेत एव मेमोऽ गृह्णादिप्रदश्चियान्वाभिग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यक्रिय धर्मा जनप्रतिष्ठाननित्याह मनुष्येभ्य देवेदेन करोति बृहदित्याह देवेभ्यदेवेदेन करोति न मैत्याः पितुर्भ्य देवेदेन करो एतावतेर्वै देवतास्ताभ्यदेवैम् सर्वाभ्यो गृह्णात् एष तेनो नर्विश्वेभ्यक्त्वा देवेभ्यदित्याहवेश्वरेव केलः प्राणो वा एष यदुपाकुं सुदुपाकुम् सुपात्रेण प्रथमस्तु तमश्च ग्रहो गृह्येते प्राणमेवान प्रयन्ति प्राणवनो ग्यन्ते प्रजापधर्वा एषेन क्रेण प्राणवकुम् सुपत्नी प्रजाप्रजनयन्ति यदुपाकुम् सुपात्रेण पात्रे पदमा क्रेणा गृह्णाति प्रजानाम् प्रजायन्ते देवा वा इतैतपत्रे सुवर्गम् लोकमजिगागुं सन्ते सुवर्गम् लोकन् न प्राजानन्तरे तम्पा त्रिपदमपश्यन्तम गृह्णतरतोर्गम् लोकम् प्राजानयुक्ताः त्रिपतो यच्छते सुवर्गस्य लोकस्य प्रज्ञा ष्ठतस्थेभ्य गृह्यमाणस्त्रियम् गृह्णन्तस्मात् श्रेनादिवज्य देवेन वशय कृत्वा गृह्णाच्युपयाम गृहीतो हेच्च हेयं वा उपयामस्तस्मादिजायन्ते बृहस्पतिसुसैत्या ब्रह्म वैदेवानाम् बृहस्पतिर्ब्रह्मणैवास्मै प्रजाः प्रजलयतेन्दो युत्याह वेदो वा पत्नी भजत्याः वितलत्वाय सजो हत्वष्टामत्वष्टावेवष्टारमधि सफलते प्रापद्यदन्न प्रतिप्रायच्छन्तस्मादमिवध्यं प्रपन्न प्रति प्रयच्छन्ति तस्मात् पात्रे पदे त्वष्टेऽपि लिख्यते यत्सन्नाद्य प्रजा प्रजायन्ते नानवषट्करोषट्कुर्यात् रुद्रम् प्रजा अन्वपजनेद्यन्नानुवषट्कुर्यादशाे सोमम् भक्षये तु भागस्व नवषटकरो जन रुद्रम् प्रजा अन्वपसृजति सान्द्रमग्ने सोमम् भक्षयत्यग्नेष्टरूपसे जनेष्टपत्ने मुदा नयत्याहाग्ने देवने रि सङ्ख्यापयति प्रजापजर्वा एतद्गाता प्रजाना प्रजननायापौ भवप्रवर्तयति नेतदेव नचिन्त्योरुणो बप्रवर्तयत्योरुणाधिरेदस्यच्यते नग्नङ्गत्योरमुपप्रवर्तयति यदानग्नपूर्वर्भवत्य सि सदेव भवतो धनेदस्य प्रजाः प्रजायन्ते इन्द्राभृत्रमहन्तस्य शीर्षकपालमुदौ जगत्सद्रौ श्याम्यामगोहाश्यामि यन्न श्याम यज्ञवेशं करिष्यामेतम् शतं भोदधानाभिरहार्यो जनग्रश्रेणा च धानि शतमेऽभिश्वेना एतावते रवा श्रेल्लेकामधुखा वा इन्द्रस्यन्द्रस्य हरे त्वामपा प्रकृत्य परिधेन्दुभयानन्तराधानाभ्यां घातुं प्रयच्छेत् प्रकृत्य परिधेन्दुभो जनिराधानाभ्यामेव धातुं प्रयच्छ त्वं मेताज भोजयातरामेव जुहाय विक्रमेन्द्रविक्रमः विहार्यं भिन्द्यादुत्पादेन पशव भुञ्जन्तौपदिष्टे रणयन्नतं भिन्द्या भावयेन पजवो च्छन्ते सोऽपि शस्तमेवावरुन्धनमुत्तरवे्यान्निवति पशवो वामुत्तरवेरिः पशबो हारियो पशुष्वेव पशून् प्रतिष्ठापयन्ति ग्रहानुवानुप्रजापशवः प्रजायन्तवस्वन्तर्यामावजा वयशुक्रामन्थ्युतग्रहाणे गादि च ग्रहम् यावाय च ग्रहभूयष्ठाभजर्ग्रह्यते तस्माद् गावः पशूनाम् भूयिष्ठायत्र पाकुषगोहस्तेन विगृह्णाय तस्माद्त्रेण च जनयत्यथावजा भूयसे पितावादेशे राग्रेण पुत्रः क्रेणवपदस्य कलसा गृह्णी जात्यथा पिता पुत्रं क्षितौ पथापतितादृकेव तद्यकलश पदस्येताक्रीणा गृह्णी यात्यथा पुत्रः पितरं क्षितौ पथापतितादृगेव तदात्मा वा एकयज्ञस्य यदा क्रेणो यहो वा कलशो वा पदस्येदाग्रेणा गृह्णीयात्मनदेवाधियज्ञन्यष्करोज्ञविज्ञातो वा एकऋत्य गृह्णादि वा युव्येन जहोर्यमाद्गर्भेण विज्ञातेन ब्रह्म पृथमुपयन्ति पुराः अस्ति वा युव्यानि हरन्ति तस्मास्त्रमागुंशरन्ति यत्त्वादृगेव तद्यग्रहम् गृह्णाति यथा वस्कत आहृत्य प्राह तादृकेवदयति यथावस्वरमुपनिधाय वक्रामजादिकेव यज्ञस्यलम् तस्य रजातृढम् पुरस्तालुपया वायुटा यज्ञपरिष्टापया मारितायज्ञस्य धृत्येः ण्यानि युज्यन्ते नान्यानि यानि पराजयनानि प्रयुज्यन्ते मेवते लोकमपि दयति पराय वक्ष्यसौ लोको यानि पुनः प्रयुज्यन्ते इम मेवतेर् लोकमभिदयति पुनः पुनर्वक्षोकः प्राण्यानि पात्राणि युज्यन्ते नान्यानि यानि पराजयनानि प्रयुज्यन्ते तान्यन् वोढदयः पराभवन्ति युज्यन्ते नान्यानि यानि पुराजीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोरण्यमुपयन्ति यानि पुनः प्रयुज्यन्ते तान्य ग्राम्याः पशव ग्रामोपावयन्ति यो वै ग्रहाणां निदानं वेद निदानवान् भवत्याज्यमित्युक्तं तद्वै ग्रहाणां निदानयतु भागुंसुशवन्तर्गामयोर्युच्छैस्त्रहाणामेतद्वै ग्रहाणां निदानयैव ग्रहाणां वेदप्रजया वसुभिर्मसुनैर्ज्यायते स्थानेभिरन्ये ग्रहानिश्चन्देवायुज्यैरन्य ग्रहाणां व्यशनैर्यम् वेदप्रजया वसुभिर्म शनैर््यागतगेन्दस्तष्टेदहामिवत्स विश्वम्याः आत्मन्नारमणन्नामिन्दत्सगेतादुनसमनम् रोनादो नवश्यत्तारैर्वै तस्मादनुसवनम् पुरोडाशानुप्यन्ते तस्मादनुसवनम् पुरोडाश्राश्नीतात्मन् नैवारमणम् कुरु देनैनकुम् ब्रह्मवायनावदन् चालयुरापङ्किराः प्यदेभगे यज्ञस्य वान् तत्त्वमितिधाना करम्भरिपापः पुरोडाशः पयस्यादयपङ्किराः प्रदेतद्यस्य वान् तत्त्वम् ओ स्वर्गाय वा एतानि लोकाय भूयन्ते यद्दाक्षिणानि द्वाभ्याङ्गारुकवत्येजो जड्दिपानप्रदक्षित्रात्यन्तरिक्षये वा प्रदेशतोभ्ये ऋतुवर्गमेवैरम् लोकङ्कमयति सौरेभ्या विभ्याङ्गारुकमत्येजोत्यमेवैरम् लोकगुम् समारोहयति नयवत्यर्चा गेभ्येजु ऋतुवर्गस्य ङ्ग्यो गृह्णा ऋतुवर्गमेवेण लोगङ्गमयतिरूपेण रूपमभ्यैवेत्याहरूपेण तथोमो विश्ववेदा विभजत् वेत्याह तथोमस्तवै विश्ववेदा देवो गान्ध्यक्षिणा विभजैव सोमच्युतमित्याह सोमच्युतृत्यस्य राधाय ध त्या पथा हरेण चन्द्रदक्षिणा इत्याह सत्यम् वा ऋतगुम् सत्येनैवेनाभजति यज्ञस्य पथाः विचारन्ते नित्याह यज्ञस्य केताः पथायन्ते यद्दक्षिणा ब्राह्मण मध्यराध्यातमुदमित्याहैवे ब्राह्मणेनाश्रुभान् तस्मादेव माहविषु भक्प श्रव्यक्षमित्या हनुवर्गमेवेन लवकङ्गमय हेदस्वरदस्यैरित्याह गच्छत मधुमते प्रदाता न भवत्मा दक्षिणा संवर्धय समिष्टै योगुम् ऋजुभोति यज्ञस्य समिष्टे यद्वै यज्ञस्य क्रोधयद्विष्टै यदत्तेयन्नात्येरि यदधि करोधियन्नापि करोति तदेव दे प्रेणादिनवजुभो दिनवै पुरुषे प्राणाः पुरुषेण यज्ञः संवितो यावादेव यज्ञस्त्वम् प्रेणादिघृग्यानि भो दि षड्वालवर्तूणेव प्रेणादित्रेण यजोगुङ्त्रे जिमे लोकादिमानेव लोकान् प्रेणादेव यज्ञम् गच्छ यज्ञपदिम् गच्छे त्याह यज्ञपति वेवेन गमयति स्वाय्यो लिङ्गचेत्याः स्वा वेवेन यो लिङ्गमयत्यै हृदयज्ञो यज्ञपदे न हतो यजमानरेव वेर्यम् दधाति वा रुष्ठो हतात्यहव्यो देवभागम् प्रच्छदत् सञ्जरात् बहुजा येजो यज्ञै यज्ञम् यज्ञपदा ज्ञपदाविसत्याद्वैरञ्जयाज्ञेवापयज्ञप्रतिष्ठाप्यासे यजमानस्यापराभावाय निलेवा गादितो गातुम् यत्त्वा गातुमि चेत्याह यज्ञ एव यज्ञम् प्रतिष्ठापयजमानस्यापराभावाय ृथयुजहोदयदेवार्वाजेन वेकहाय नाजेन कलो जलदेवतैरवयज देवोपृथमवेणः साक्षादेवरुणमवयज देवत्मनाक्षातुं तजिधातुं सन्ति वै रक्षोः रक्षताहत्येत्यैरित्रै लोकायेभ्यदेव लोकेभ्यो रक्षागस्य वहन्ति पुरुषः पुरुषो निधनमु स्मेकहत्या पुरुगोभिकारेत्याह प्रदिष्टमित्याहेवास्मैत्याह वरुणपाभिजुहोत्याहुदीनान् प्रदिष्टे अग्निवत्येवजुहाण प्रयाः प्रजा एव वरुणपान् न्तरे मरुणैः भाषा मुञ्चत्यज्ञे वरुणौ यजदि साक्षायेवैनं वरुणपादान्मुञ्चत्यभवर्गावनौ याजौ यजल प्रजा ये वर्षप्रजा एव वरुणपाशान्मुञ्चदिनप्रजाजालद्वावनो याजौष सम्पद्यन्ते षड्वाजतवर्जस्येवणोदमेव वरुणमवयजते समुद्रे सुन्दरित्यारुणः सन्त्वाभि सन्तोषेतापैत्याहाभ्यदेवै नमो ्यञ्जन् तथा देवत्याह यथा वै सोमोन्दूनां भक्षयेत्पशुमान् स्याद्वरुणस्त्वेन गृह्णे याद्यन्नभक्षयेत पशुस्यान्न वरुणा गृह्णे यादुभक्ष्पश्चमेव वशुभान् भजनेन वरुणा गृह्णादिप्रजतो वरुणस्य पादरित्याह वरुणपाशादेव जन्मुच्यते वरुणस्याञ्जलित्याये तेजदेव्यादेवा तेजा तेजा देत्याजदेवात्म भक्त ञ्जयसाक्षेणोकं विना यत्रैव लोकमभिजयेत्यत्रेदुष्येभ्यञ्जस्य लोकया अभिजत्या उपनसंविधां विनया पदर्लोककामस्य संहितां मनुष्यलोककामस्य मध्यमास्तान् समान् पशुकामस्यैतानुवानुपशव उपलक्षन्ते पशुमानो कामगेन प्रमालकस्याजतिं वरिषष्ठमसकदी रागौ समेकामें विनादिता प्रवीयते दक्षिणार्भ्यं वरिषष्ठं विनजामस्या सकदी रागं समाक्रमण एव गस्य लोकस्य नमष्टे ये कस्मिन् योगे द्वे दशने परिवेरितस्मादे विन्दते यन्नैकागुवशोर्योपयो परिवेदितस्मान्नैका गौपदे विन्दते यङ्कामगे दस्तस्य जायेत्युपान्ते तस्य विश्वजायते यङ्कामगेन पुमानस्य जागे चेत्यास्य प्रवेष्टमानेवाश्वजायते दुरावे दक्षिणतवपालयन्ताम् देवा उपशरेण वा पानुदन्तोपशयत्तै यद् दक्षिणतमुपशरवपशे प्रादुर्जापनत्ये सर्वे वा अन्येजो पशुपन्तोऽथोपशे वा पशुस्तस्य यजमानः पशुर्य निर्दिषेदात्युवार्थे यजमानोऽसौर्य निर्दिशेत्यन्दश्याद्यमेव पशुर्निर्दिशति ेवया वेशोऽन्धयन्दित कला विराडन्नं विराट् विराजैवान्नाद्यमवरुन्धयेकादशस्तरवाश्रेशदेवैदान्ते नवद्रोवा एषा सम्मीयते यदेकादश देशेश्वरा पुरस्ताहा यज्ञकम् संवर्धितोम् विनादि यज्ञस्य प्रत्युत्त प्रजापद प्रजार्शिता नो मन्यत सरेता पश्यत्त वेदायरिन्द्रियम् वीर्यमात्मन्न सत्त प्रजाय भारेण सृजते यो युजते सरेतरीचारि भगदेवैकादशने भवत्याजदेवदरेन्द्रियं वीर्यै यजमान आत्मन् भत्रे प्रेमाग्नेयेन पापेतिपत्याकवतेन सौम्येन तथा च प्रजनेन पौष्पेण वायत्पत्यभवति ै देवानाम् बृहस्पद ब्रह्मणैवास्मै प्रजा प्रजलयज वैश्वदेवो भवति वैश्वदेव्यो वे प्रजा प्रजादेवास्मै धादि पुरस्तादैन्द्रस्य ऐश्वरेव मानभदे ऐश्वरेवम्बान्नमन्नमेव पुरस्ता पुरस्तादन्नमद्यत ऐन्द्रमानभ्यमारुतमानभते स्वानुपध्नादि कामगेतयोवगत स्वोपरुध्यता योऽपरुध्यस्सोऽपगच्छद्वित्तेन्द्रस्य लोके वरुणमानभेदवारुणस्य लोक ऐन्द्रयवावगत स्वोपरुध्यते योपरुद्धस्व गच्छति यदि कामगेद प्रजापक्ये युगतिपशोन्विचरये प्रजाय मोहयते यदभिवाहतोपाम् वारुणमानभेद प्रजावरुणो विन्दीया दक्षिणत उदञ्च वाहतोपाम् प्रजानामवरुणग्राहाय इन्द्रः पत्न्यया मनुपयाजगत्ताम् पर्यज्ञ कृता मुदृधस्तया मनुरार्ध्वा यत्पर्यज्ञकृतम् पार्थे मदमुत्सृति यामेव मनुरुद्धिवार्ध्वा तामेव यदमानरुध्नोति यज्ञस्य वा प्रतिष्ठिता यज्ञः परा भवति यज्ञम् परा भवन्त यजमाना न प्रजरत्यैवासगामस्त्वाट्वाभुवजिष्टावस्य रूपाणि विकरोति तमेव रूपानि विकरोति भ्रन्तिन्ति वा एतत्सौम्यगभि शृण्वन्ति यत्सौम्यो भवति सामृतायानुत्तम् भ्रन्ति दादृगेव तद्यदुत्तरार्थेवामद्देवायद्देवताभ्यः स्रमदम् तद्राद्दक्षिणाग्रे तेषामेव दृढान् दिक्स्वायामेव मित्रे निरवदयग्रादिव्याहरन्ति कामदेव व्यो वै सौम्यो निेवताम् नक्षम् वत्कुर्वन्ति तदस्सेवरवे पवित्रम् वै सौम्या ेव वयम् लेख आत्मानन्न परिपश्चाम् कृत्वा वेः श्वेतस्मन् आत्मानम् परिपश्च आत्मानमेव मयलेनो गतमना स्यात्सो वेः श्वेतयम् वे मनपरागतम् प्राज्ञा सोमेन तद्वयमस्मासु धारया वसेजमनदेवात्मन्दाधारणगतमनाभवत्य यत्यज्ञः सर्वा देवताविष्टो यज्ञो देवताः सेव यज्ञञ्चदाधारो पागुंसयजमिनताय ब्रह्मवादिना वदन्ति मित्रो यज्ञस्य स्विष्टं युवते मरुणौ दुरिष्टैपज्ञमानो भवती वरुणे वशामालभरे मित्रेणैव यज्ञस्य स्विष्टगुं समगतिवरुणे त्रिष्टन्दाच्यमाच्छो रथा वेदाङ्गले नोर्वराहं प्रभिन्दं देव वृत्सा वेज्ञं प्रभिन्दो यन्मेः प्रावरुणे भषामालभरे यज्ञानेव प्रभिन्दाय भक्त्यमन्दवाः सरिशान्ते जातगा मा निवायतस्य छन्दाकुं द्विजयी जानच्छन्दसाद्वशा यन्मेः प्रावरुणे न्द्रायस्येव पुनराप्रीणाच्यजातरामत्पाया सोचन्दस्वेव रथन्दे देवा इन्द्रियम् वीर्याः अव्यभयन्त ततो यदत्तशिष्यतरनिग्राह्याभवन्तर जग्राह्या नामजग्राह्यत्वञ्जतजग्राह्या दृश्यन्तरिन्द्रियमेव तद् वीर्यम् तेजहायमेन्द्रेण ब्रह्मवर्त सहोर्येणधिग्राह्याश्चक्रे पृष्ठानि यत्पृष्ठेन गृह्णेला प्राञ्च यज्ञम् पृष्ठा न स गौशने गर्वपृष्ठ प्रत्यग्राह्या सौशले गर्वपृष्ठहेतव्या यज्ञस्य सर्वे ज्ञानपदर्देवेभ्यो यज्ञानि स्त यज्ञैत्याग्राह्या न गृह्यन्ते द्रव्या यज्ञस्य देवता वै सर्वा सदृशीलादन्तान व्यावृतमगच्छन्ते देवादेतकैतान् ग्रहान् पश्यन्तान् गृह्णताग्न्द्रविन्द्रौर्यगुंसौर्यो वैतेनताभिर्व्यावृतमगच्छति यस्तैवं ग्रहायश्चन्द्रेः व्यापृतमेवपात्मना भातुर्येण गच्छति मे लोका ज्योतिष्मन्तः समावद्वीर्य आर्यायुत्याहुराग्नेनास्मिन् लोके ज्योजद्धत्त ऐन्द्रेणान्तरिक्ष इन्द्रमाजो हि सयुजौ सौर्येणामस्मिन् लोके ज्योजद्धत्ते ज्योतिष्मन्तोऽस्मानि मे लोका भवन्ति समावद्वीर्यानेनाम् कुरुत एतानुवे ग्रहा बम्बा विश्ववेधावत्तान्ताभ्यादिमे लोकाः परारञ्जश्चार्वाञ्चश्च प्राभुर्यस्यैवम् विदरेष्यन्ते प्रास्पादिमे लोकाः परारञ्जश्चार्वाञ्चश्च भान्ति देवा वे यज्ञे कुर्वदुरा कुर्वद ते देवादाभ्ये छन्दागुधिनाडिमुस्थापयन्तो देवाभवन्परासुरायस्तेवं विजोराभ्यो दृश्यते भवत्यात्मना परास्य भ्यादुर्य भवतेऽज्ञे देवासुरानदा भ्रमन्तददाभ्यस्यादाभ्यर्थय देवं वेदभ्रात्येव भ्रातुर्यन्नैनं भ्राजुर्वोदभ्रात्येवा प्रजापते न्ति वा एतत्सोम्य शृण्वन्ति सोमे हर्यमाने हन्यते यज्ञैजमानो ब्रह्मवादि न वदन्ति किञ्चेयमानकुलते येन जीवन् स्वर्गं लोकमेतेति जीवग्रहो वा एतदाभ्यो नस्य गृह्णादि जीवन्तमेवेन गं सुवर्गल् लोकङ्गम् यदि विवाहेन यज्ञम् चिन्तन्ते नाहाभ्यलग्नस्थापयन्त कुंशोऽनपि सन्लत्यये े प्रवाहग्रहाण गृण्ढस्तनेकम् प्रजापति नमगण्डदस्य गृह्णा गण्हादिमनैव हि प्रजापति प्रजापतेरात्या औदुम्बरेण गृह्णाय जोर्वादुम्बरमोर्जमे वावरुन्ध्युवश्रक्तिभवतिष्ठलम् वेदायधलवान् ्यमिति यामद्वास्यायतनं मनसा गायमाना गृह्णां गृह्णन्नाद्धाभ्याम् अध्येताध्वर्यमेतमानाय चैतद्धनेभ्यामृद्ध्येतानवानं गृह्णाय सैवा हिरण्यं विरण्माय प्राणाय शैवामृतमभिरुडेन्द्रियायेन्द्रिये अहं जापदेवेभ्यो वैद्याङ्गोडशीर्यमात्मानमभिरमखिदत्तच्छोडश भवन्न वे षोडशी नामयज्ञोडशज्ञस्तोत्रगुं षोडशगुंस्रं जयषोडशीरुक्षोडशिर षोडश त्वय्यक्षोडशी दृष्ट्यत इन्द्रियमेव तद्वैर्यमान आत्मम् भक्ते देव भ्यो वैष वर्गो लोको न भवत्तरेदगुं षोडशिनमपश्यन्तमग्रन्थो लोक प्राभवत्यक्षोडशी गृह्यते च वर्गस्य लोकस्याभिजित्या इन्द्रो वे देवानावानुदा वरहातंषोडशिनं प्रायच्छत्तमग्रन्थे तदतो वै सोऽग्रं देवतानां पर्येजस्यैवं विदुदश्चोडशी गृह्यते अग्रमे वसमानानां पर्येति ेषो नजीवग्रहप्रातस्य निर्गृह्णाय नोच्च वजामे वशवभुक्सामोहस्य निर्द्रहेरात्रे मधुकामस्य गृह्णीरात्मज्र स्मे पशोरवरुध्यरात्यष्टाक्षवयत्रप्रज्ञष्टोपे राजन्यश्च गृह्णीरावृत्ता भो हिराजन् योज देशान्धरे वा स्मै वज्रं गृह्णाच्यारिन्धे निर्वातहत्यैकविकं भवति प्रजष्टेत्य हरिवक्षस्य स इन्द्रश्च प्रयन्धा भोपाः रागुं शिवै देवेडन्तागस्या सन्ध्या रागश्च देवा कनीयता छन्दसाज्यायच्छन्दोभिव्यजगम् दन्ततो वेदे दुराणा लोकमवृञ्जतयत् कनीयता छन्दसाज्यायच्छन्दो विजगन्तरिद्धातुर्व्य श्रीपल्लोकम् वृङ्केश अक्षराण्यतिरेदयन्ति लट्वाल तव ऋतो प्रीणानि चत्वारि पूर्वाण्यम्बयन्ति दुर्पदेव पशूनवरुन्धे देवोत्तरे विपदरे वारुन्धे लष्टुभाविदम् पालयन्ति लष्टुत्तरस्मा मासवजाविषिते सोऽशिनस्तोत्र विपाकः एतस्मिन्वे लोक इन्द्रो वृत्रमहम् साक्षादेव ब्रह्भ्रातुर्व्याज प्रहरतरुणपि सङ्गो स्व दक्षिणैतद्वैव जस्य रूपकम् समृद्ध्यये ओष्ठकाण्डः समाप्तः सप्तमकाण्डप्रारम्भः ओ प्रजननं ज्योतिरज्ञर्देवतानां ज्योतिर्विराच्छन्दसाञ्ज्यविराष्टि स्तोमो प्रातसवनं वहतो यथा प्राणश्च प्राणश्च द्वौ माद्यंसवनै यथा चक्षुश्च श्रोत्रं च द्वौ तृतीयनै यथा वाग्प्रतिष्ठाय पुरु स्थूर्यङ्कामङ्कामयते प्रजापति प्रजाष्टोपेनैव परिजगृह्णात् तासां परिगृहीता नामश्वत्यप्रवचनस्यानुगाचरे तादृत्तरेताहुर्वनस्माद् ्यमाण् तस्मादोषो नेदा सर्ववेदसेवा सहस्रे वा विद्वारज्ञेष्टो ये प्राजाता प्रजा जायते प्रजातास्मादाहृत्येष्ठ न्दामब्राह्मणो मनुष्याणामजः पशूनान्तोरतो बाहुभ्याम् इन्द्रो देवतान्वदिर्जन दृष्टुच्छन्दो बृहत्सापरागन्यो मनुष्याणां पशूनान् तस्माच जन्तरसप्तरमेश्वसृज्यन्त जगति छन्द वैरूपकं साम वैश्वमनुष्याणा कामप्रशोनान्तस्मात् आद्यान्न सृज्यन्तरस्मां सोऽभ्र भोजिष्ठाहि देवता अन्वसृज्यन्तरे गमिकं शं ने तमरुष्टुच्छन्दो अन्वसृज वैराजकं मनुष्याणामश्व पशूनान्तस्माक्रामिश्वश्च श्रोद्रश्च तस्मा तस्मात् पादा एतस्मिन् परितिष्ठते वनेवैकाय प्रेटचन्द्रसा त्रिभते स्तोमायज्यो दशते त्रिभुताः ब्रह्मवर्चसेन पञ्चदशालज्योदश पञ्चरसेन उदता सप्तदशाल ज्योदप्तरसेन प्राणावतेन प्रजननेनैकभि ज्योदश स्तोमरेव स्तोमार ज्योदेवत्यथो स्तोमरेव स्तोमभिप्रणयति कावन्तो वै स्तोमास्तावन्दः कामास्ता न्तो लोकास्तावन्ति ज्योतेकिश्चेतावत एव स्तोमानेतावतः इदमानो सर्वस्तोमेन यजे ते यस्य प्रबलमन्तर्यन्ति न्तर्गन्ति वैर्ये मेऽप्य सरति खलु वैरिग्येन इलमानो ऐकदेयस्य दत्तरसमन्तर्गन्ति प्रजान्तस्यान्तर्गन्ति प्रजाया मेप्य सरिति खलु वैरिणमाणो ऐकलेयस्यैक विभुसमन्तर्गन्ति प्रतिष्ठान्तस्यान्तर्गन्ति प्रतिष्ठायां मेप्य सरिति खलु वैरिग्येन इलमानो ऐकलेयश्च त्रणमन्तर्यन्ततो गच्छदस्य नक्षत्रिया च विराजमन्तर्यन्तदुर्वेप्यक्षत्रिया खलु विजमानो यजते यस्य त्रियं समन्तर्गन्ति देवतास्तस्यान्तर्गन्तदेवता सुमेऽपि खलु वेदमानो यजते यो वै स्तोमा रामम् परमला निगच्छन्तम् वैरपरमलामेव गच्छति त्रिवद्वै स्तोमा रामस्तवत्परमो यम् वैरपरमलामेव गच्छति